अथ व्योमवर्गः द्यो दिवौ द्वे स्त्रियामभ्रम् व्योमपुष्करमम् बरम् नभोऽन्तरिक्षम् गगनम् अनन्तम् सुरवर्त्मखम् वियद्विष्णुपदम् वा तु पुंस्याकाशविहायसी विहायसोऽपि न कोऽपि द्युरपि तारा तारापथोऽन्तरिक्षम् च मेघाद्वाचमहाबिलम् विहाया शकुने पुंसि गगने पुन्नपुंसकम् इति व्योमवर्गः